श्रीमन महाभारत आदिपर्व आस्कपर्व आस्तीकर प्रदाशतो अध्याय जन जनमे जय उच बालों स्थवी इवाबाषते नायं मत मतोमे इच्छाम्यहं वरमस्मै प्रदा तन्मे विप्रा संविदध्वं यथावत् सदस्यावूचुः बालोपि विप्रोमान्य मान्य इवे हराज्ञां विद्वान् यो वै स पुनर्वै यथावत् सर्वान् कामास्त्वत्त एवार्हतेद्य शीघ्रं सौतिरुवाच व्याहर्तुकामे वरदे नृपे द्विजम् वरम् वृणीष्वेति ततोऽभ्युवाच होतावाक्यम् नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति जनमे जय उवाच यथा चेदम् कर्म समाप्यते मे वैतक्षकयेति शीघ्रम् तथा भवन्त प्रयतन्तु सर्वे परं शक्त्या सहि मे ऋत्विज ऊचुः यथा शास्त्राणिनः नः प्राहुर्यथा शंसति पावकः इन्द्रस्य भवने राजंस्तक्षको भयपीडितः यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान् पुरस्तात् सराजानं राजानम् प्राह पृष्टस्तदानीम् यथाहुर्विप्रास्तद्वदेतनृदेव पुराणमागम्यततो ब्रवीम्यहम् दत्तम् तस्मै वरमिन्द्रेण राजन् वसेहत्वं त्वम् मत्सकाशे सुगुप्तो न पावकस्त्वाम् प्रदहिष्यतीति एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन् कर्मकाले होता च कर्म यत्तोऽस्याजुहावाथ मन्त्रैरथो महेन्द्र स्वयमाजगाम विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत् ततो राजामन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् जनमेजय उवाच इन्द्रस्य भवने विप्रायदि स तक्षकः तमिन्द्रेणैव सहितं पातयध्वम् विभावसौ सौतिरुवाच जनमे जयेन राज्ञा तु प्रति होता जुहावतत्रस्थम् तक्षकम् पन्नगम् तथा ूयमानो यथा चैव